गर्गसंहिता खण्डं टेन् अश्वमेधखण्डम् अध्यायम् वन् मङ्गलाचरणम् नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं तदो जयमुदीरयेत् नम श्रीकृष्णचन्द्राय नमः सङ्घर्षणाय च नमः नमो नमः श्रीगर्ग उवाच सभायामागदं वीक्ष्य रोमहर्षणनन्दनं शौनकप् परिपप्रचप्रणिपत्याभिवाद्य च शौनक उवाच त्वन्मुखात् सर्वशास्त्राणि पुराणानि महामदे नाना हरिचरित्राणि श्रुतानि विमलानि वै पुरा गर्गेण कथिता ममार्गे गर्गसंहिता राधा महिमा बहुवर्णितः अद्याहं श्रोतुमिच्छामि त्वत्थकृष्णकथां पुनः सर्वदुःखहरां सौदे कथयस्व विचार्य च श्रीगर्ग उवाच अष्टाशीतिसहस्रैश्च मुनिभीरौमहर्षणीः पृष्ठप्रोवाच कृष्णस्य स्मरन् पादाम्बुजं हरेः सौदिरुवाच अहोशौनकथन्योऽसि यस्य ते मदिरीदृशी कृष्णचन्द्रपदद्वन्द्वमकरं दस्पृहावधि सङ्गमं वैष्णवानां च देवा श्रेष्ठं वदन्ति हि पापक्षयकरी यस्मात् श्रीकृष्णस्य कथा भवेत् अनन्दं कृष्णचण्डस्य चरितं कल्मषापहं किं जानादिब्रह्मा च तथा किञ्चिदुमापदिः मस्य को मादृशकोऽपि वासुदेवकथार्णवे मोहिदानवदिष्यन्ती यत्र ब्रह्मादय सुराः श्रीगर्गो यादवेन्द्रस्य युग्रसेनस्य भूपदेहे अश्वमेधं क्रदुवरं दृष्ट्वा प्रत्याह चैकदा धन्यो राजा यादवेंद्रो यादवेन्द्रो यश्चकारक्रदुत्तमम् श्रीकृष्णस्याज्ञया पुर्या तेनाहं विस्मयम् गतः मया यदा यदा वै संहितायाम् च कथा कृष्णस्य वर्णिताः परिपूर्णतमस्यापि यथा दृष्टा यथा श्रुताः तस्याम् वै वाजिमेधस्य कदा न कथिता अद्याहं कथयिष्यामि हयमेथ कथां पुनः यस्याश्रवणमात्रेण नराणां हि कदौ युगे भुक्तिं मुक्तिं च भगवाञ्छीखरमेव प्रयच्छति इत्युक्त्वा श्रीमुनिर्गर्गकृष्णभक्त्या च शौनक उग्रसेनस्य यज्ञस्य चरित्रं स ह्यचीक्लृपद हयमेधचरित्रस्य सुमेरुर्नाम सुन्दरं धृत्वा गर्गस्तु कृतकृत्यो भवन्मुने कृत्वा कथामष्टदिनेन श्रीमुनिदोर्गुरुर्बुद्धिमदां वरः परः धाय यौ वै मधुरां हरेः पुरीं व्रजं नृपेन्द्रं च निरीक्षितं खलु अम्बरादागदं तत्र गर्गं ज्ञानवदाम्बरं वीक्ष्योद्धाय नमश्चक्रे वज्रनाभोद्विजयि सह स्वर्णसिंहासनं दत्त्वान् स्वर्ण सिंहासनं दत्त्वा वणिज्य अर्चयित्वा पुष्पस्रग्भिर्मिष्टान्नं चन्यवेदयद् तत्पादसलिलं नीत्वा शीर्षे धृत्वा कृताञ्जलिः भूत्वा श्रीवज्रनाभस्तु श्यामः पङ्गजलोचनः पृष्ठदेहो बृहद्बाहुर्वीरषोडशवार्षिकः इति होवाच स्वगुरुं शद सिंहसमोद्भटः वज्रनाभ उवाच नमस्तुभ्यं स्वागतं ते ब्रह्मन् किं करवाम ते मन्ये वरं परम् गुरुर्विधिर्गुरुरुद्रो गुरुरेव बृहस्पतिः गुरुर्नारायणसाक्षात् तस्मै श्रीगुरवे नमः नराणां च मुनिश्रेष्ठदर्शनं तव दुर्लभम् अस्माकं नितरां देव विषया सकृतचेतसां गर्गाचार्यकुलाचार्य तेजस्विन् योगभास्करत्वद्दर्शनादपि वयं पाविदा सकुटुम्बकाः श्रुत्वा यदूना मृषभस्या वाख्यम् मुनीन्द्रवर्यस्तु महान्महात्मा स्मरन् हरे श्रीचरणारविन्दं मुदा नृपेन्द्रं निजगाद युवराज महाराज यदु वंशिरोमणे त्वया साधुकृतं सर्वं पालिता पृथिवी जनाः स्थापितश्च त्वया वत्सधर्मो वै पृथिवीतले विष्णुराधश्च ते मित्रं नृपाश्चान्ये वशा धन्यस्त्वं राजशार्दूलधन्या धन्याते मधुरापुरी पुरी धन्याश्च ते प्रजा सर्वन्या वै व्रजभुश्च ते भुङ्क्ष्वभोगान् भजन् बलं प्रद्युम्नमेव च अनिरुद्धं च निःशङ्गो भूत्वा राज्यं कुरुप्रभो सूद उवाच इति वाक्यं समाकर्ण्य गर्गस्य नृपसत्तमः सङ्घर्षणं च श्रीकृष्णं पितरं च पितामहम् विरहेण स्मरन् राजा चाश्रुपूर्णमुखो भवत तं नृपं दुःखितं दृष्ट्वा स्थितम् भूमा वधोमुखम् गर्गस्तु विस्मितः प्राह दुःखं प्रशमयन्निव गर्ग उवाच कस्माद्रो दिशि राजेन्द्रभयं किं दे कारणं स्वस्य दुःखस्य वद सर्वं ममाग्रदः इति तद्वचनं श्रुत्वा राजानप्राह दुःखितः पुनः पृष्टश्च गुरुणा प्राह गद्गदया गिरा राजोवाच मां त्यक्त्वा यादवः सर्वे कृष्णसङ्घर्षणादयः गदा देवपरं लोकं तेनाहं दुःखितो भवम् स्वाम्यमाद्यसुहृद्राष्ट्रकोशदुर्गबलानि च एकाकिनश्च मे ब्रह्मन्येदे प्रीतिकरा नहि मया चरित्रं कृष्णस्य न दृष्टं वद दुष्टो यादवसंहारस्तस्माद्दुःखं न यादिमे चतुर्व्यूहेन हरिणा या पुरी शोभिता पुरा सापि कृष्णो भक्तेः परं गदः कस्य हेतोः किमर्धं जीवामि शिष्यवत्सल अद्य यास्यामि गहनं राज्यं कर्तुं नमे मे मनः सुद उवाच तदो मुनीनामृषभो महात्मा श्रुत्वा गिरं यादवसप्तमस्य संश्लाख्यदुःखं शमयन् हितुष्टो गर्गो ब्रवीद्भूपदि वज्रनाभं। गर्ग उवाच वृष्णिप्रवरमद्वाक्यं शृणु शोकविनाशनम् सर्वपापहरं पुण्यम् सावधानतया शुभं यो राजदे कुशस्थल्याम् कृष्णचन्द्रो हरिःपुरा विराजते स सर्वत्र भक्त्या तम् भूपते अद्य कथयिष्यामि भुक्ति मुक्तिप्रदाम् कथाम् शृणुत्वम् वसुधानाध श्रीकृष्णबलयोः परम् सुद उवाच इत्युक्त्वा भगवान् गर्गो वज्रायस्वाञ्छ संहिताम् कथयामास विप्रेन्द्र पुण्याम् नवधिनै इति श्रीगर्गसंहितायामश्वमेधचरित्रे सुमेधौ गर्गवज्रनाभसंवादे प्रथमोऽध्यायः ओ अध्यायम् टु सूद उवाच इति श्रुत्वा वज्रनाभिर्मुने श्रीगर्गसंहिताम् दृश्यं मुमो दाधगुरुम् प्रत्युवाचप्रणम्य च अद्य श्रीकृष्णचन्द्रस्य चरितम् चरित्रम् तु श्रुतम् मया त्वन्मुखान्मुनिशार्दूल तेन दुःखाश्च मे गदाः मे मनस्तु कृपानाथ पुनः श्रोतुम् हरेर्यशः अदृप्तस्यापि कृष्णस्य वद स्वचरितम् परम् द्वार्वत्यामुग्रसेनेन हयमेधः कृतः पुरा तच्चरित्रम् वद मुने किञ्चित्पूर्वम् श्रुतम् मया अनुव्रतानाम् शिष्याणाम् सुतानाम् च मुनीश्वर भ्रूयुर्गुह्यमना गुरवः करुणामयाः श्रीसूत उवाच एवम्भाषितमाकर्ण्य यादवानाम् गुरुर्मुनिः प्रीधप्रत्याहराजेन्द्रम् स्मरन् पादाम्बुजम् हरेहे। गर्ग उवाच धन्यस्त्वम् कृष्णचन्द्रस्य पादयोर्भक्तिरीदृशी जादादे यादवश्रेष्ठदिष्ट्या दुदुर्लभा नृणाम् कथयाम्यत्र ते राजन्नितिहासम् शृणुष्व वै यस्य श्रवणमात्रेण सर्वपापै प्रमुच्यदे द्वापरे पीडिताराजन्धराभारेण पापिनाम् ब्रह्माग्रे कथयामासोऽपि श्रुत्वा हरिं ययौ गत्वा च कथयामास श्रुत्वा श्रीराधिकापदिः महिमाश्वास्य देवैश्च भारम् हर्तुम् मनो दधे विवाहो वसुदेवस्य मधुपुल्यामभूततः कंसबोधनषट्पुत्रवधः कः सम्भयम् नृप कृष्णसमुद्भवं वर्णनम् रूपकृष्णस्य वसुदेवस्य संस्तुतिः देवख्यादिपुराकृत्यकथनं जगदीशिदुः गोकुलानयनम् कन्यापादनं तद्विभाषणम् सान्त्वनं वसुदेवस्य मोचनं भार्यया कंसदुर्मन्द्रदैत्येषु साधु बाल उपद्रवः प्रादुर्भूदे व्रजे कृष्णे व्रजराजमहोत्सवः मधुरागमनं नन्दवसुदेवसमागमः पूदना सुपयपानम् नन्दगोपादिविस्मयः शकटव्यत्यये दैत्यचक्रवादवधः शिशोः संलाने मुखे दात्रिया जम् धृम्भणे विश्वदर्शनं रामकेशवयोर्नाम्नो कारणं केलिरेदयोः दौर्त्यं गोपवधूगेः प्रसङ्गान्मृदभक्षणम् दर्शनं विश्वरूपस्य नन्दभाग्यपुरा कथा चौर्यं हैयङ्गवत्स्याद बन्धनं दामभिर्बलाद यमलार्जुनयो शाबो भङ्गष्टैव स्तुतिस्तयोः बालक्रीडोपनन्दादिमन्द्रणं गमनं ततः वृन्दावने तयो क्रीडा वयस्यैर्वत्सचारिणोः वत्सुरस्य जवधो बकाकासुरयोऽपि भोजनं सखिभिस्तीरे यमुनाया हरेर्मुदा वत्साहरणं धात्रा कृष्णत्वं वत्सपालयोः ब्रह्मणो गमनम् पश्चास्तुति कृष्णरधिर्गदिः गोचारणे महक्रीडा धेनुकादिवधस्तधा ब्रज आगमनं कृष्ण कृष्णगोपीनेत्रमहोत्सवः मृदान् विशाम्भक्पानेन गोपान् हरिरजीवयाद काली यदमने स्तोत्रं तद्भार्याणां प्रलापनम् हृदे कालीयसम्बन्धकथनं वन्निमोचनं क्रीडाप्रलम्बनिधनं दावाग्नेर्मोचनं गवां वर्षा शरद्वर्णनं च गोपीनां वजनामृतं व्रतं गोकुलकन्यानां वस्त्राणां हरणं मुदा वनभाग्यकथागोपप्रार्थनाप्रेषणं मखे विप्रभार्या प्रसादश्च पश्चात्तापो द्विजन्मनां यागभङ्गो महेन्द्रस्य धृतिर्गोवर्धनस्य च सुरेन्द्रगर्वहरणं गर्गजादगवर्णनम् गोपशङ्कापगमनमिन्द्रदेन्वाभियाचितम् नन्दस्य मोक्षणं गोपवैकुण्ठगमनं ततः पञ्चाध्यायनि शाक्रीडा सर्पानन्दस्य मोक्षणं शङ्कचूडवधपश्चाद्गोपीगीतं वृषार्दनम् कंसनारदसंवादकंस क्रूरकधादः केशिनो निधनं कृष्णान्नारदर्शिकधा तदः व्योमासुरवधो क्रूरागमनं गोकुलेषु च दर्शनानन्दहृष्टात्मा रोमाञ्चो गद्गदा गिरः संवादो रामकृष्णाभ्यां वर्णितं कंसचेष्टितम् रामकृष्णप्रयाणं च तथा गोपीप्रलापनम् मधुरागमनम् मध्ये हृदे कृष्णस्य दर्शनम् स्तुधिः पुरागधिपश्चाद्दर्शनम् पुरसम्पदः रचकस्य शिरश्चेदो वायकस्य वरादयः सुधाम्नो वरदानं च कुब्जा सन्दर्शनम् हरेः धनो भङ्गः सैन्यवध कंस दुर्हेदुदर्शनं रङ्गोत्सवकुवलया पीठयुद्धविखातनं दर्शनं रामकृष्णस्य पौराणां प्रेमवर्धनं मल्लानां निधनं रङ्गे कंसस्य सह बन्धुभिः पित्रोश्च सान्त्वनं सर्वसुहृदां उग्रसेनाभिषेकं च नन्दादिव्रजप्रेषणम् ईषद्विजातिसंस्कारं पठनं च गुरोर्गृहे मृदपुत्रप्रदानं च गुरो पञ्चजनार्दनं पुनरागमनं शौरेर्मधुपुर्यां महोत्सवः उद्धवप्रेषणं गोपी विलापरिसान्त्वनम् मेलनार्थं तु कृष्णस्यागमनं नन्दगोकुले पुनर्वैकोलदैत्यस्य वध पश्चात्प्रकीर्दितः कुब्जारदिस्तथा क्रूरपे प्रेषणं गजसाह्वये पाण्डवेषु च वैषम्यं धृतराष्ट्रस्य बोधनम् इति श्रीगर्गसंहितायामश्वमेधचरित्रे सुमेरौ कृष्णलीलावर्णनम् नाम द्वितीयोऽध्यायः ओम् अध्यायम् त्रि गर्ग उवाच जामादृवध सन्तप्तजरा सन्धचमोवधः बहुश सेनयोर्युद्धे द्वारकादुर्गकारणम् यवनस्य वधं दृष्ट्वा मुचुकुन्दस्य संस्तुतिः परं दत्त्वा ततो म्लेच्छ कृत्वा धने तदः नीयमाने वने दृत्त पलायनं रैवो रेवतीं कन्यां बलदेव समर्पणम् रुक्मिणीप्रियसन्देशश्रवणादखिलान्नृपान् निर्जित्य निर्गमो गेहात् हृदवानम्बिका गृहात् नृपैः सान्त्वनं चैद्यस्य ततो रुक्मीसमागमः युद्धापेक्षापराधाद्वै मुण्डनं तस्य कृष्णतः रुक्मिणीदुःखशमनम् रामवाक्याच्च मोक्षणम् तदो विवाहो रुक्मिण्या विधिवत्स्वपुरे मुदा प्रद्युम्नोत्पत्तिकथनम् हरणम् सूदिकागृहाद मायावत्योक्तवृत्तान्तम् शम्बरस्य वधस्ततः पुनरागमनं केहे सन्तोषोद्वारकौकसम् सूर्यास्यमन्तकप्राप्तिर्याजनम् तस्य वै हरेः तत्सम्बन्धात् प्रसेनस्य वधोकीर्तिर्हरेस्तथा तन्मार्जनाय वृक्षस्य गृहे सुगमनम् हरेः युद्धे ज्ञात्वा जाम्बवन्द्याः समर्पणम् सत्राजिताय च मणिप्राप्ता श्रीहरिणा बिलाद विवाहः सत्यभामाया पारिबर्हे तथा मणिः रामेण सह कृष्णस्य गमनम् हस्तिनापुरे अक्रूरकृदवर्माभ्याम् शतधन्वादुप्रेरितः सत्राजिदम् जकानाशु सोऽपि कृष्णेन मारिदः रामस्तुमिथिलायाम् च गदाशिक्षा सुयोधने अक्रूरे मणिदाननम् च शक्रप्रस्थे हरिर्गदः कालिन्द्यासङ्गतिशौरेर्विवाहस्वपुरे तदः विवाहो मित्रविन्दाया सत्यायाश्च तथैव च भद्राया लक्ष्मणायाश्च विवाहो हरिणा तदः पारिजातम् तु सत्यायै शक्रं जित्वा ददौ हरिः वज्रनाभिरुवाच प्रियायै दत्तवान् कस्माच्चक्रं जित्वा सुरदृदम् सुरद्रुमम् श्रीकृष्णस्तप्कथां सर्वाम् मुने मे ब्रूहि विस्तराद श्रीगर्ग उवाच पारिजादैककुसुमे जानीदे नारदात्कदा दत्ते सति श्रीरुक्मिण्यै सत्यादु दुःखिता भवत ताम् दृष्ट्वा कुपितां प्राह क्रोधा गारगदां हरिः माशोच कुरु दास्यामि पारिजाद्रुमं च ते तदैव कथितं सर्वे कृष्णाग्रे भौमचेष्टिदं शक्रेण श्रुत्वा भगवान् प्राह पश्यन् कृताञ्जलिम् श्रीकृष्ण उवाच मत्प्रियाम् दुःखिताम् पश्य रुदन्तीम् वृत्रसूदन पारिजातस्य वृक्षार्थे किम् करिष्याम्यहं वद यदा स्यै पारिजातस्य वृक्षम् दास्यसि त्वम् हरे तदा भौमम् ससैन्यम् च हनिष्यामि न संशयः कृष्णभाषिदमाकर्ण्यप्रहसन्प्राह वासवः इन्द्र उवाच पारिचा दद्रुमा सर्वे वरुदन्दे नन्दने च ये गृहाण तान् स्वतकृष्णत्वं हत्वा नरकासुरं तदास्तु चोक्त्वा भगवान सत्यभामा समन्विधः गरुडस्कन्धमारूढप्राज्योदिष पुरं ययौ सत्यभामाहरिं प्राह स्वर्गमिन्द्रे गदे सदि सत्योवाच पूर्वं गृहाणशक्रात्वं द्रुमराजं जगत्पदे कार्ये भूते सदि हरे न करिष्यदि तोत्प्रियं प्रियावाक्यं समाकर्ण्य प्रियप्राह प्रियां वचः श्रीकृष्ण उवाच सपारिजातं यदि न प्रदास्यदि प्रयाच्यमानस्तु मया मरेश्वरः तदश्चीव्या मुदितानुलेपने गदा विमोक्ष्यामि पुरन्दरोरसि इत्युक्त्वा भगवान कृष्णो भौमासुरपुरम् गतः नानादुर्गैः सप्तभिश्च वेष्टितं च महासुरैः सर्वान् बिभेददुर्गान्वै गदाचक्रशरादिभिः जखानमुरुदैत्यं च तत्पुत्रान् शस्त्रसंयुगान् शस्त्रास्त्रवर्षं मुञ्चं ससैन्यं नरगं हरिः क्षित्वा चक्रं चक्रे गरुडेन जखान च हत्वा भौमं जगन्नाथो वररत्नानि यादवः जग्राहतत्र कन्यानां समूहं वै ददर्शः दैत्यसिद्धनृपाणां च सहस्रानि जषोडश शदधा शताधिकानि कन्याश्च प्रेषयामास स्वाम् पुरीम् गृहीत्वा धमणिं छत्रम् देवमादुश्च कुण्डले पारिजाद्रुमार्थे वै यया विन्द्रपुरीं हरिः इति श्रीगर्गसंहितायामश्वमेधजरिदे सुमेरौ कृष्णकथावर्णनम् नाम तृतीयोऽध्यायः अध्यायम् फोर् गर्ग उवाच गत्वा स्वर्गम् तुशक्राय दत्वा छत्रम् मणिम् तथा अदित्यैकुण्डले कृष्णो दत्त्वाभिप्रायमब्रवीद आभिप्रायम् हरेर्ज्ञात्वा वासवो न ददौ द्रुमम् देवाञ्जित्वा तदा पारिजातम् जग्राह माधवः सुद उवाच इति श्रुत्वा कथां राजा यादवो विस्मयान्विदः पप्रच्छस्वगुरुम् भूय श्रद्दधानो हरेर्गुणे ब्रह्मञ्चक्रस्तु देवेन्द्रो जानन्कृष्णम् हरिम् परम् अपराधं तु कृतवान् स कथम् ब्रूहितत्वदः कृष्णाग्रे कथितम् सत्यभामया शक्रचेष्टितम् तस्मान् मे विस्तराद्युद्धमिन्द्रमाधवयोर्वद गर्ग उवाच अदित्या संस्तुतकृष्णशक्रवाक्या च नन्दनम् वनम् गत्वा पारिजातान् शन्ददर्श बहून्द्रुमान् तेषाम् मध्ये महावृक्षम् मञ्जरीपुञ्जधारिणम् क्षीरोदमधनाजादम् पद्मगन्धसमन्वितम् सुराणाम् सुखदम् ताम्रपल्लवैपरिवेष्टिदम् वने विभूषणं दिव्यम् वरं स्वर्णसमत्वजम् तम् दृष्ट्वा प्राह सत्यभामाचमानि येन गृह्णाम्यहम् कृष्णश्रेष्ठम् सर्वम् वने ध्रुमम् इत्युक्त प्रिययोत्पाट्यपारिजातम् गरुत्मदी लीलयारोपयामास प्रहसन् जगदीश्वरः तदैव कुपिता सर्वे वनपाला समुद्धिदाः धनुर्बाणधरा कृष्णमूर्जु प्रस्फुरितातराः इन्द्रप्रियाया वृक्षश्च हृद कस्मात्वया नर यदृच्छया किलास्मागं तृणी कृत्य क्वयास्यसि इन्द्राणि प्रीदये देवै पुरा ह्युदधिमन्थने गृहीत्वैनम् भविष्यसि गिरीणाम् येन सर्वेषाम् पक्षात् पूर्वम् निपातिताः तम् किम् वृत्रहणम् जित्वा वृक्षं नयिष्यसि तस्माद्गच्छ महावीरपारिजातम् विहाय च न दास्यामो द्रुमम् तुभ्यम् शक्रस्यानुचरा वयम् यदा दास्यति तुभ्यम् वै पारिजादं पुरन्दरः न निषेधम् करिष्यामो वनपाला वयम् तदा तेषाम् भाषितमागर्ण्य सत्यभामा रुषान्विदा तूष्णीम् भूदे सदि हरा वभिदा प्राहतान्नृ सत्यो वा च का कस्मा यदा यदा सामान्य सामान्यसर्वलोकानां यदीशो मृतमन्थने समुत्पन्नः सुरकस्मादेको गृह्णादि वासवः यथा सुधा यथै वेन्दुर्यथा श्रीर्वनचारिणः सामान्य पारिजातस्तथा द्रुमः भर्तु बाहुमहागर्वध्येन मृषा तत्कभ्यदामलम् क्षान्त्या सत्याहारप्रदिद्रुमम् तभ्यदाम् च पौलोम्यै वचनम् मम सत्यभामा वदत्येदधि गर्वोद्धताक्षरम् यदि त्वम् दयिता भर्तुर्यदि तत्कारयनिवारणं निवारणं जानामि ते पदीं शक्रं युष्मान् जानामि तत्त्वदः गर्ग उवाच कृष्णप्रियाया वचनं वनपालाः निशम्य च इन्द्राणि गत्वा प्रोचुः सर्वं यथोदितम् रक्षकाणां वच श्रुत्वा शचीप्राहरुषान्विदा कृष्णम् निवारणार्थाय न यास्यन्तम् पुरन्दरम् शच्युवाच मदीयम् पारिजातं वै माधवेन बलीयसा गृहीतं स्वप्रियार्थे वै त्वाम् तृणीकृत्य वज्रिणम् तस्मान् मोचय वृक्षेश्यम् पादसूदनवृत्रहन् सत्यभामा वशं कृष्णं विनिर्जित्य महारणे त्वया वै पूर्वमद्रीणाम् पक्षावज्रणशासिताः भयं विसृज्य युद्धाय गच्छ तस्मात् सुरैर्वृतः इति श्रुत्वा शचीवाक्यं शक्रो न मुचिसूदनः न च पारदुयुद्धाय मनोभयसमन्विदः ततश्च बहुश्च पत्न्या प्रेरितः तदा कोपेन को श्रीकृष्णं निन्दन्प्राकमदान्विदः इन्द्र उवाच येन पारिजातं वैगृहीतं सुन्दरानने मृधेदं पादयिष्यामि वज्रेणशतपर्वणा युत्युक्त्वा वासवो राजन्नारुह्यैरावधं गजं शुण्डा दण्डैस्त्रिभिर्युक्तं रक्तकम्बलमण्डितं चतुर्भिश्योभिदं दन्तैर्हिमाद्रिसदृशं शुभं स्वर्णशृङ्गलया जुष्टम् शुशुभे निर्जरैर्हृदः तथा मरुद्गणा सर्वे यमाग्निवरुणादयः रुद्राश्च मात्मो रुद्राश्च द्वादशात्मानो वसवो धनदादयः विद्याधराश्च गन्धर्वासाध्यापितृगणादयः ततस्त्रिंशत्कोटि सङ्ख्या शक्रस्यानुचरासुराः यदे समागता क्रुद्ध्वा योद्धुं श्रीकृष्णसम्मुखे के आहृता केऽपि शक्रेण सहायार्थं तु स्वात्मनः तथा तु नारतेनापि केचिद्देवस्तु प्रेषिताः तद परिखनिस्त्रिंश गदा शूलपरश्वधैः बभूवुस्त्रिदशा सज्जाचक्रे वज्रकरे स्थिते यदि श्रीगर्गसंहितायामश्वमेधरिदे सुमेरौ परिजादहरणम् नाम चतुर्धोऽध्यायः ओम् अध्यायम् फैव् अध कृष्णचन्द्रो गजेन्द्रोपरिशोभितम् इन्द्रम् देवपरिवारम् युद्धाय समुपस्थितम् शङ्घम् दख्मौ स्वयम् कृष्णः शब्देना पूर यन्दिशः मुमोच च शरव्रातम् सहसायुधसंमिदम् तदो दिशश्च गगनं दृष्ट्वा बाणशदान्वितम् मुमुचोर्विबुधा सर्वे शराश्चक्रायुधोपरि येकैकमस्त्रं शस्त्रं च सुरैर्मुक्तं सहस्रधा स्वबाणैर्भगवान् कृष्णश्चिच्चेत नृपलीलया पाशि नश्चाहिपाशं च चिचिदे पन्नगाशनः यमराजेन प्रहितं दण्डं लोकभयङ्करम् गदया पादयामासभूमौ कृष्णस्तुलीलया चक्रेण धनदस्यापि शिबिकां तिलको बहु चकार कृष्णसूर्यं च कोपदृष्ट्या हदौजसम् महाग्निमागदम् वीक्ष्य मुखेन च पपौ हरिः ततो रुद्रगणैर्मुक्तान् शूलाञ्चिच्छेद वैरुष चक्रेण च हरि रुद्रान् पादयामास बाहुना ततो मरुद्गणादेवा साध्या विद्याधरास्तथा मुमुचुर्बाण पडलान् परि, भूपते शरवर्षम् प्रमुं चन्दीं सेनाम् सर्वां समागदाम् विलोक्य सत्यभामातु भयम् प्राप तदा मृधे ताम् भीताम् प्राह गोविन्दः सत्ये मा भयम् कुरु आगताम् शक्रसेनाम् वै हनिष्यामिन संशयः इत्युक्त्वा भगवान् क्रुद्धो बाणैः शार्ङ्गधनुश्च्युतैः ताडयामास विबुधान् ोष्टोन्सिंहो न तदप्रत्याह गरुडं कंसः कोपपूरिदः वैनते यत्त्वया युद्धं न कृतं रणमण्डले तच्छ्रुत्वा दुसभार्यां च तच्छ्रुत्वा दु च स्कन्दे सन्धारयन् हरिम् कोपाद्विष्णुरदः सद्यः पक्षाभ्याम् नखराङ्कुरैः तुण्डेन भक्षयन् देवां स्थाण्डयन्वि चारवै ततश्च दुध्रुवो देव हन्यमाना गरुत्मदा अथ बाणैर्महीपाद इन्द्रोपेन्द्रौ महाबलौ परस्परम् च वर्षन्तौ धाराभिरिवतो यदौ ऐरावधेन राजेन्द्र सुपर्णो युयुधे तदा गजस्तार्क्ष्यं तु दशनैर्जखानगरुडस्ततः गजं तुण्ड पक्षैश्च छिन्नं भिन्नं चकारः सुरैः समस्तैर्युयुधे वज्रिणा च यदुत्तमः भगवान् मखवन्तं वै मख वा मधुसूदनन् मधुसूदन बाणैर्ववृषु तु क्रुद्ध वन्योन्यविजिगीषिणौ चिह्नेषु अस्त्रेषु बाणेषु शु, शस्त्रेष्वस्त्रेषु चत्वरं वज्रं जग्राह मखवा भगवश्चक्रमेव च हाहापारस्तदैवास्य त्रैलोक्ये सचराचरे वज्रचक्रधरौ वीक्ष्य सुरेश्वरनरेश्वरौ जग्राहवामहस्तेन क्षिप्तं वज्रं च वज्रिणा न मुतो हरिश्चक्रं तिष्ठ तिष्ठेत्युवाचः लज्जितं वज्रहीनं च तार्क्ष्यण शदवाहनं वेदं पलायमानं चालोक्य सत्या जहास वै शशी वीक्ष्या गतं शक्रं प्राह कोपेन पूजिता ये माधवेन प्रथनेदुर् विनिर्जितः महासैन्ययुधस्त्वं वै तस्मात् ते दिग्बलं अहं गत्वा रणे कृष्णं विनिर्जित्य सुरद्रुमं मोचयामिन सन्देहः पश्य त्वं च सुराधम गर्ग उवाच युत्युक्त्वा शिबिकां शीघ्रमारुह्य कुपिता शची योद्धुपामा ययौ पुनः सुरगणैर्वृता गदम् वीक्ष्य कृष्णो स्थापयित्वा सुपर्णे च जग्राहत्युदरुं स्वयं यदा हरिप्रिया क्रुद्धा युद्धं कर्तुं समागता तदा सर्वत्र ब्रह्माण्डे चास्वीत् कोलाहलो महान् भयं प्रापुः सुराः सर्वे विधिचक्रादयो नृप तदैव गीष्पदीराजनाययौ शक्रनोदिदः आगत्य वारयामास योद्धुकामां पुलोमजान् बृहस्पतिरुवाच शचीशृणुमदीयं वै वचनं बहुबुद्धिदं कृष्णस्तु भगवान् साक्षात् सत्यभामा धीमती। तयासार्धं सार्धं युद्धं करिष्यसि हरिप्रिये तस्मादवज्ञां संत्यज्य ऋभुक्षे त्वं गृहं व्रज सत्यां वै पारिजातं च दत्त्वा रक्षसुरान्भयाद यद्भयाद्वादिपवनो वन्निर्दसदि यद्भयाद् भयात् यन् यन्मृत्युश्चरति ब्रध्नो व्रजति यद्भयाद् यस्माद्विभेदि ब्रह्मा वै कपदी च पुरन्दरः तं न जानासि कृष्णम् वै भौमम् हत्वा समागतम् गर्ग उवाच यदि वाक्यं शचीवाक्यम् भामाम् कृष्णं च न त्वा जगामसदनमात्मानं च विगर्हति तदशक्रं न मन्दं च ब्रीडितम् वीक्ष्य माधवः उवाचक्रमाम् ब्रीडान् गदे च भिदुरे कुरु द्वन्द्वयुद्धे हि चैकस्य भविष्यति पराजयः इति श्रुत्वा चक्रोवाच वचनम् पाकशासनः इन्द्र उवाच यस्मिन् जगत्सकलमेदनादिमध्ये यस्माद्यतश्च न भविष्यदि सर्वभूतात् तेनोद्भवप्रलयपालनकारणेन व्रीडाकथम् भवति देवि निराकृतस्य सकलभुवन ूतेर्मूर्तिरन्यादिसूक्ष्मा विदितसकलवेद्यैर्ज्ञायते यस्य नान्यैः तम जम कृदमिशं शाश्वदं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विचेदुं समर्थः इत्युक्त्वा सत्यभामां वै शक्रस्तूष्णीं बभूवः तस्य प्रफस्य भगवान् प्राह गम्भीरया गिरा भवान् देवाधिपशक्र वयम् धूमिनिवासिनः क्षन्तव्यमपराधम् तत् भवता च कृतं मया भोश्चक्रपादिजातश्च नियदमुचितास्पदम् गृहीतोऽयं मया सत्यभामा वचनकारणाद गृहाणकुलिशं चेदं प्रहृदं यत्त्वया मयि तवैवास्त्रं सुनासीर तद्वैरिषु निवारणम् इन्द्र उवाच कृष्ण किं मां नरोहमिति किं वद जानीमस्त्वां जगन्नाथं न तु योसि सोसि योऽसि सोऽसि जगत्राणप्रवृत्तौ नादसंस्थितिः विश्वस्य शल्यनिष्कर्षम् करोषि गरुडध्वज अयं च नीयदाम् कृष्ण पारिजातकुशस्थलीं नरलोके त्वया त्यक्ते नाह्यं आगमिष्यति गोविन्द स्वयमेव त्रिविष्टपम् श्रीगर्ग उवाच तच्छुत्वा वज्रिणे वज्रं दत्वा सोप्या जगामकौ द्वारकां द्वारकानाथस्तूयमानसुरेश्वरैः उपाध्माय तदकम्पुं संस्थितो द्वारकोपरि उत्पादयामः समुदम् द्वारकावासिनां कृष्णो भामा कृष्णोभामासमन्वितः पारिजादं च निष्कूटे स्थापयामास लीलया जुष्टं सुरद्रुमं कृष्णो भ्रमरैस्वर्गपक्षिभिः अथैकस्मिन् मुहूर्ते वै माधवे माधवस्वयं पुहराजकन्याश्च प्रुद्धग्ये पृथग्गे पृथग्गे हेषु धर्मदः षोडशस्त्रीसहस्राणि अष्टाधिकशतानि च तावन्दिचक्रेरूपाणि परिपूर्णतमो हरिः दशदश कृष्णो जी जनदात्मजान् यावत्य आत्मनो भार्या अमोघ गदिरीश्वरः यदि श्रीगर्गसंहितायामश्वमेधखण्डे श्रीगर्गवज्रनाभसंवादे पारिजादानयनं नाम पञ्चमोऽध्यायः ॐ अध्यायं सिक्स् गर्ग